चन्द्रचयः भगवान् चन्द्रः अतीव मनोहरः स्वकिरणैः सर्वान् सन्तोषयति सः अतः दक्षप्रजापतिः स्वपुत्री चन्द्राय दातुम् उद्युक्तः तदर्थं सः चन्द्रं प्रार्थितवान् अपि दक्षस्य आशयानुसारं चन्द्रः तस्य सप्तविंशतिः पुत्रीः अपि सन्तोषेन एव परिणीतवान् यद्यपि चन्द्रः ताः सर्वाः परिणीतवान् तदापि तासु पत्नीषु अन्यतमायां रोहिण्यां तस्य गाढाप्रीतिः आसीत् रोहिणी अत्यन्तं रूपवती चन्द्रः तस्यामेव अधिकम् अनुरक्तः इति ज्ञात्वा अन्याः सर्वाः सपत्न्यः चन्द्राय अक्रुद्यन् किञ्च स्वपितुः दक्षस्य समीपं गत्वा चन्द्र अस्मान् उपेक्षते इति आरोपं च कृतवत्यः पुत्रीणां विषये चन्द्रेण क्रियमाणम् पूर्णं व्यवहारं ज्ञात्वा कुपितः दक्षः तं शप्तवान् भवान् चयरोग्रस्तः सन् इति चन्द्रः झटिति क्षयरोग्रस्तः अभवत् तेन महती पीडा अनुभूता परन्तु एवं क्षयरोगेण पीड्यमानं पत्यं दृष्ट्वा सर्वाः पत्न्यः दुःखिताः अभवन् ततः ताः सर्वाः पुनः पितुः दक्षस्य समीपं गत्वा तं प्रार्थितवत्यः कृपया अस्मत्पत्यं चन्द्रं यथापूर्वं स्वस्थं करोतु इति तदा दक्षः उक्तवान् चन्द्रेण शापस्य फलम् अनुपोक्तव्यम् एव किन्तु स च शापप्रभावः सर्वदा यदा न तिष्ठेत् तदा करिष्यामि इतः परं चन्द्रः नाम आशयानुसारं मासे एकस्मिन् पक्षे पूर्ववत् शोभते मम शापस्य प्रभावात् अपरस्मिन् पक्षे क्षीयते इति तदारभ्य च्रकस् पक्षे शोभते अस् पक्षे चीयते शुक्लपक्षणपक्ष तौ च पक्ष प्रसिद्ध